द्वितीयोध्यायः ओम ओम् मध्यमचरित्रस्य विष्णुरऋषिर्महालक्ष्मीर्देवता उष्ण्यक्षन्दः शाकम्भरीभक्तिः दुर्गाबीजम् वायुस्तत्त्वम् यजुर्वेदस्वरूपम् श्रीमहालक्ष्मीप्रीत्यर्थम् मध्यमचरित्रजटे विनियोगः ध्यानम् अक्षस्रक्परसम् गणेशु कुलिशम् पद्मम् धनुष्कुण्डिका ध्यानम् ओम् अक्षस्रक्परसम् गणेषु कुलिशम् पद्मम् धनुष्कुण्डिका दण्डम् शक्तिमतिं च कर्म जलजम् घण्ाम् सुराभाजलम् दण्डम् शक्तिमतिं च कर्मजलजम् घण्म् सुराभाजलम् पाचतु दर्शने दधति भक्तैः प्रसन्नाननामर्जिनीमिहमः लक्ष्मीम् सरोजस्थिता सेवे दैभमर्जिनीमिहमः लक्ष्मीम् सरोजस्थिताम् ॐ ह्रीं ऋषिनुवाच ्रीमृषिरुवाच देवासुरमभोद्युद्धम् पूर्णमभ्यसतम् पुरा देवासुरमभोद्युद्धम् पूर्णमभ्यसतम् पुरा महितेसुराणामधिपे देवानाम् च पुरन्दरे महिषेसुराणामधिपे देवानाम् चपुरन्दरे तत्राकृदैर्महावीर्यैर्देवसैन्यम् पराजितम् तत्रा सुरैर्महावीर्यैर्देवसैन्यम् पराजितम् गिरिप्तसकलाम् देवानिन्द्रो भोन्महिजासुरः गिरिप्लातसकलाम् देवानिन्द्रो भोन्महिजासुरः ततः पराजिता देवः पत्वयोनिम् प्रजापतिम् ततः पराजिता देव पद्वयोनिम् प्रजापतिम् पुरकृत्य गतास्तत्र यत्रेभगरुडध्वजौ पुरस्तृत्यगतास्तत्रयत्रेखगरुणध्वजौ यथा वृत्तम् तयोस्तद्वन्महिदासुरचेक्षितम् यथा वृत्तम् तयोस्तद्वन्महिदासुरचेक्षितम् श्रितताः कथयामासुर्देवाभिभवविस्तरम् श्रितमासुर्देवाभिभवविस्तरम् सूर्येन्द्राघेन्दूनाम् भ्रमस्य वरुणस्य च सूर्येन्द्राग्नियेन्दूनाम् यमस्य वरुणस्य च अन्येषाम् चाधिकारान् सतिष्ठति अन्येषाम् स्वर्गान्निदातुताः सर्वे तेन देवगणाभुवि वितरन्ति यथा मस्या महिषेन दुरात्मना विचरन्ति यथा मस्या महिषेन दुरात्मना एतद्वः कथितम् सर्वमराचर्कितम् एतद्वः कथितम् सर्वमरानि विचक्षितम् करणम् वः प्रपन्नाथो बधस्तस्य विचिन्त्यताम् करणम् वः प्रपन्नाथो बधस्तस्य विचिन्त्यताम् इति फम् निशम्यदेवानाम् वशांसि मधुसूदनः चकारकोपंसम्भृजभ्रुकुटीकुटिलाननौ चकारकोपंसम्भुजभ्रुकुटीकुटिलाननौ ततोपपपूर्णस्य चक्लिनो वदनास्ततः ततोतिकोपपूर्णस्य चक्लिनो वदनास्ततः निश्चक्राममहस्तेजो ब्रह्मण शङ्करस्य च निर्शक्राममहत्तेजो ब्रह्मणः शङ्करस्य च अन्येषाम् चैव देवानाम् चक्रादीनाम् शरीरतः अन्येषाम् चैव देवानाम् चक्रादीनाम् शरीरतः निर्गतंसमहत्तेजस्तच्चैक्यम् समगच्छत निर्गतंसमहत्तेजस्तच्चैक्यम् समगच्छत अतीव तेजसः स्फोटम् ज्वलन्तमिव पर्वतम् अतीवते जगःफोटम् ज्वलन्तमिव पर्वतम् ददर्शुप्ते सुरास्तत्र ज्वाला व्यापरिरन्तरम् ददर्शुप्ते सुरास्तत्रज्वालाव्यापरिरन्तरम् अतुलन्तप्रतस्तेजः सर्वदेव शरीरजम् अतुलन्त प्रतस्तेजः सर्वदेव शरीरजम् एतर्थम् तदभून्नारी व्याप्तलोकत्रयम् दिशा एकर्थम् तदभून्नारी व्याप्तलोकत्रयम् दिषा यदभूत्स्थाम्भवम् तेजस्तेनाजायतसन्मुखम् यदभूत्थाम्भवम् तेजस्तेनाजायतसन्मुखम् याम्येन चा भवन् केशा बाहवो विस्मृतेजसा याम्येन चा भवन् केशा बाहवो कौम्येनस्तनयोर्युग्मम् मध्यम् चैन्द्रेण का भवत कौम्येनस्तनयोर्युग्मम् मध्यम् चैन्द्रेण का भवत वारुणेन सजम् घोरू निदम्बत्तेजसा भुवः वारुणेन सजम् घोरू निदम्बत्तेजसा भुवः ब्रह्मणस्तेजसापादौ तदङ्गुल्योर्कतेजसा ब्रह्मणस्तेजसापादौ तदङ्गुल्योर्कतेजसा वसूणाम् शकराङ्गुल्यः कौवेदेन च नासिका वसरोणाम् चकराङ्गुल्यः कौवेदेन च नासिका तरस्यास् पुदन्ता सम्भूता प्राजापत्येन तेजथा तरस्यास् पुदन्ता प्राजापत्येन तेजथा नयनश्रितयम् जज्ञे तथा पावकतेजसा नयनश्रितयम् जज्ञे तथा पावकतेजसा भ्रुवोदतम् जयोस्तेजश्रवनावनिलस्य च भ्रुवो दतम् जयोस्तेजश्रवनावनिलस्य अन्येकाम् चैव देवानाम् शिवा अन्येकाम् चैव देवानाम् दे शिवा ततः क्रमस्तदेवानाम् तेजोराशिदमुद्भवाम् ततः क्रमस्तदेवानाम् तेजोराशिरमुद्भवाम् ताम् विलोक्ष्यमुदम् प्रातुमरामहिदार्शिताः ताम् विलोक्ष्यमुदम् प्रातु हमरामहिदार्जिताः शोलम् चोलाद्य निष्कृष्य ददौ तस्यैपिना कथुर्य चोलम् चोलाद्य निष्कृष्य ददौ तस्यैपि चक्रम् च दत्तवान् कृष्णस्समुत्पाद्यत्वचक्रतः चक्रम् च दत्तवान् कृष्णस्तमुत्पाद्यस्त्वचक्रतः शङ्खम् च वरुणःशक्तिम् ददौ तस्यै हुताघनः शङ्खम् च वरुणःशक्तिम् ददौ तस्यै हुताघनः मारुपोदत्तवाम् स्तापम् बाणपूर्मे तथे सुधि मारुपोदत्तवाम् स्तापम् बाणपूर्णे तथे सुधि वज्रमिन्नः समुत्पाद्य उलिशादमराधिपः वज्रमिन्नः समुत्पाद्य पुलिशादमराधिपः ददौ तस्यै सहस्राक्ष्यो घण्टामैलावताद्गजात् ददौ तस्यै सहस्राक्ष्यो घण्टामैलावताद्गजात् पालदण्डाद्यमो दण्डम् पाकम् साम्बुपत्यर्दौ कालदण्डाद्यमो दण्डम् पाठम् साम्बुपतिर्गदौ प्रजापतिस्साक्षमालाम् तदो ब्रह्माकमण्डलुम् प्रजापतिस्साक्षमालाम् तदो ब्रह्माकमण्डलुम् समत्तरो मपूपेषु निजरस्मेन्दिवाकरः समस्तरो मपूपेषु निजरस्मेन्दिवाकरः कालश्च दत्तवान् खड्गम् तस्याश्चर्म च निर्मलम् कालश्च दत्तवान् खड्गम् तस्याः कर्म च निर्मलम् क्षीरोदष्टामलम् हारमजरे ददथाम्बरे हारमजरे ददथाम्बरे स्पूडामणिम् तथा दिव्यम् कुण्डले कटकानि च क्रूडामणिम् तथा दिव्यम् कुण्डले कटकानि च अर्धतन्द्रम् तथा शुभ्रम् केदूराणि सर्वबाहुषु अर्थतन्द्रम् तथा शुभ्रम् के दूराणि सर्वबाहुषु नोपगौविमलोतस्वत् कैवलेयकमनुत्तमम् नोपगौ विमलोतस्वच्छैलेयगमनुत्तमम् अङ्गुलीजकरत्नानि समस्ता स्वङ्गुलीषु च समस्ता स्वङ्गुलीषु विश्वकर्माददौतस्यै परशुन्ताचि निर्मलम् निर्मलं। परशुन्ताचि निर्मलम् हस्त्राण्यनेकरूपाणि कथाभेद्यम् तदर्शनम् हस्त्राण्यनेकरूपाणि कथाभेद्यम् तदर्शनम् अम्लानपङ्कजाम् मालाम् शिरस्युरसि चापदाम् अम्लानपङ्कजाम् मालाम् शिरस्तुरसिजापराम् अरदज्जलधित्तस्यै पङ्कजम् चातिशोभनम् अरदज्जलधिस्तस्यै पङ्कजम् चातिशोभनम् हिमवान्वाहनम् जिंहम् रत्लानिधानि च हिमवान्वाहनम् जिंहम् रत्लानि विविधानि च तदा सुरया पानपाश्रम् धनाधिपः तदा वशून्यम् सुरया पालपात्रम् धनाधिकः श्रेतस्य सर्वनागेशो महामणि विभूषितम् श्रेतस्य सर्वनागेशो महामणि विभूषितम् नागहारम् ददौ तस्यैभत्ते यप्तफिगीमिमाम् नागहारम् ददौ तस्यैभत्ते यप्तफिगीमिमाम् अन्यैरपिपुतैर्देवीभूषणैरायुधैस्तथा अन्यैरपि सुरैर्देवीभूषणैरायुधैस्तथा सम्मानिताननादोच्चैस्ताक्तः कम् मोहर्महः सम्मानिताननादोच्चैस्ताक्तः कम् अमायताति महता प्रतिशब्दो महान्भूत अमायताति महता प्रतिशब्दो महान्भूत चोक्ष्वभक्तकलालोकात् समुद्राश्रतकम् विरे चोक्ष्वभक्सकलालोकात् समुद्राश्रतकम् विरे सदा लवसुधाते लुप्तकलाश्रमहीभराः सदा लवसुधाते लुखकलाश्रमहीभराः जयेति देवा श्र जयेति देवा श्रमुदातामूजसिंहवाहिनी तुनयत्नैनाम् भक्तिनम् रात्मूर्तयः तुनयत्नैनाम् भक्तिनम् रात्मूर्तयः दृष्ट्वा समस्तम् तम् शुभ्रं त्रैलोक्यममरालयः दृष्ट्वा समस्तम् तम् शुभ्रम् सन्नद्धाखिलसैल्यास्ये समुत्कत्कुरुदायुधाः सन्नद्धाखिलसैल्यास्ते समुत्कत्कुरुदायुधाः आह्क्यमेतजति क्रोधादाभाष्यमहि जातुरः आह्किमेतजति क्रोधादाभाष्यमहि जातुरः अभ्यधावदतम् शब्दमशेषैरसुरैर्वृतः अभ्यधावदतम् तददर्शततो देवीम् व्याप्तलोकत्रयाम् त्रिषा तदर्कततो देवीम् व्याप्तलोकत्रयाम् द्विषा पादाक्रान्त्यानकभुवम् किरीटोल्लिखिताम्बराम् पादाक्रान्त्यानकभुवम् किरीटोल्लिखिताम्बराम् शोभिताशेषपातालाम् धनुर्ध्यानि शोभिताशेषपातालाम् धनुद्यानिस्वनेन ताम् दिशो भुजसहस्रेन समन्ताध्याप्यतम् स्थिताम् दिशो भुजसहस्रेन समन्ताध्याप्यतम् स्थिताम् ततः प्रवृते युद्धम् तयाते व्यासुरद्विषाम् ततः प्रवृते शस्त्रास्त्रयेर्बहुधा मुक्तैरादीपितदिगन्तरम् शस्त्राश्रयेर्बहुधा मुक्तैरादीपितदिगन्तरम् महिरासुरतेनानि शित्सुराख्यो महासुरः महिरासुरतेनानि स्तिसुराख्यो महासुरः युयुधे चामरस्तान्यै शरुरङ्गबलान्वितः युयुधे चामरस्तान्यै रथानामयुतै षड्भिरुदग्राक्ष्यो महासुरः रथानामयुतैषभिरुदग्राक्ष्यो महासुरः अयोध्यरायुतानाम् च सहस्रेण महाहनुः अयोध्यरायुतानाम् च सहस्रेण महाहनुः पञ्चातभ्रिश्चन युतैरसिलो मा महासुरः पञ्चातभिश्चन युतै महासुरः अजुतानाम् सते शब्दिर्बाष्कलोयुधेरणे अजुतानाम् सते शब्दिर्बाष्कलोयुधेरणे गरवादिसहस्रौभैरनेकैः परिवारितः गरवादिसहस्रौभैरनेकैः परिवारितः वृतोरथानाम् कोट्यादयुद्धे तस्मिन्न युध्यत वृतोरथानाम् कोट्यादयुद्धे तस्मिन्न युध्यत विलालाख्योजुता पंचाश्ुत विलालाख्योजुता पंचाश्ुत यजुेश युगे त रिवाजु संयुगे तरथा पिवा अनेुतशोरथनागहय अनेयुतो रथनागहृता यजुधत्तम् युगे देव्या सह तत्र महासुराः यजुधत्तम् युगे देव्या सह तत्र महासुराः कोटिकोटिसहस्रैस्तु रथानाम् दन्तिनाम् तथा कोटिकोटिसहस्रैस्तु रथानाम् दन्तिनाम् तथा हयानाम् सवृतो युभ्रे तत्राभोन्महिजातुरः हयानाम् सवृतो युभ्रे तत्राभोन्महिजातुरः सोमरर्भिबालैशक्तिर्मुसलस्था सोमरैर्लक्तिर्मुसलस्थ जुयुभक्स युगे नेखद्गै परशुप्टिश जुयुभक्स युगे ने व्याख्गे परशुपट्टिजिचिक्षुप्क्ति केचित्षा तथा परे केचिच्यतिक्लुपशक्ति केचित् पाखाम् तथापरे देवीम् खड्गप्रहारै सुतेताम् हन्तुम् प्रचक्रमुह। देवीम् खड्गप्रहारै स्तुतेताम् हन्तुम् प्रचक्रमः सापि देवी ततस्काणि खस्त्राण्यस्त्राणि चण्डिका सापि देवी ततस्काणि छस्त्राण्यत्राणि चण्डिका नीलयैव प्रतिथेदरिजशस्त्रास्त्रवर्षिनी नीलयैव प्रतिक्षेदरिजशस्त्रास्त्रवर्षिनी अनायस्तानना देवी सूयमानासुरर्षिभिः अनायस्थानना देवी सूयमाना सु सुरर्षिभिः मुमोदासुरतेः तुषस्त्राण्यस्त्राणि तेश्वरी कोऽपि कृद्भोधृ असतो देव्यावाहनकेसरी कोऽपि कृोधृसतो देव्यावाहनकेसरी कटारासुरसैन्येषु बले शिवभुताशनः कटारासुरसैन्येषु भले शिव हुताशनः निश्वासान्वमुचे याक्षयुद्धमानारणेऽम्बिका निश्वासाण्मुचे याक्षयुद्धमानारणेऽम्बिका तये वदद्यस्तम् भूता गणाः कथसहस्त्रशः तये वदद्यस्तम् भूता गणाः कथसहस्त्रशः युजुधोत्ते परसुभिर्भिन्दिपालासि पक्षिकैः युजुत्ते अवादयन्त पटहान् गणाः शङ्खां तथापरे अवादयन्त पटहान् शङ्खां तथापरे मृदङ्गांश्च तदैवान्येतस्मिन् युद्धमहोत्सवे मृदङ्गांश्च तदैवान्येतस्मिन् युद्धमहोत्सवे ततो देवी त्रिशूलेन गदयाशक्तिवृष्टिभिः ततो देवी त्रिशूलेन गदयाशक्त्यवृष्टिभिः खड्गादिभिश्च सतचोधिजघानमहासुरान् खड्गादिभिश्च सतचोधिजघानमहासुरान् पातयामा तथवान्यान् घण्टास्मन विमोहितान् पातयामा तथैवन्यान् घण्टास्मन विमोहितान् असुरान्भु विपासेन बध्वासान्यानकर्षयत अतुरान्भु विपाशेन मध्वासान्यानकर्षयत् केचिद्विभासता तीक्ष्णैः खर्गपातैस्तथापरे केचिद्विभासता शीक्ष्णैः खर्गपातैस्तथापरे विबोधितानिपातेन गदया भुविषेरते न गदया भुविषेरते रेश्चकेजिद्विधिरम् मुसलेन वृषं हताः रेश्चकेजिद्वुधिरम् मुसलेन वृषं हताः केचिन्निपतिता भूमौ भिन्ना शूलेन वक्षति केचिन्निपतिता भूमौ भिन्ना शूलेन वक्षति निरन्तराश्चरोगेन कृता केचिद्रणादिने निरन्तराश्चरोघेन कृता केचिद्रणादिने शेनानुकारेण प्राणान् ममुतत्रिदशार्जनाः शेनानुकारेण प्राणान् ममुतत्रिदशार्जनाः केषाञ्चिद्वाहवत्सिन्ना छिन्नपरे केषाञ्चिद्वाहवच्छिन्नाच्छिन्नग्रीवास्तथापरे शिग्रान्ति पेतुरन्येजामन्ये मध्ये विदादिताः शिगराम् चिपेतुरन्येजामन्ये मध्ये विदादिताः विच्छिन्नजङ्घा स्वपरे पेतुरुर्याम् महासुराः विच्छिन्नजङ्घाः स्वपरे पे तु्याम् महासुराः एकपाग्वक्षिचरणाः केचिद्देव्या जिधादृताः एकपाग्वक्षिचरणाः केचिद्देव्या जिधादृताः छिन्ने बिजान्ये शिरसि पतितास्पुनरुत्सिताः छिन्ने बिजान्ये शिरसि पतितास्पुनरुत्सिताः कबन्धायुर्देव्या कबन्धायुजुदेव्याधिहीतपरमायुधाः नर्दुश्चापरे तत्र युद्धे तुर्यलयाश्रिताः नर्दुश्चापरे तत्र युद्धे तुर्यलयाश्रिताः कवन्धा छिन्नशिरसः खड्गसच्चिष्टिपानयः कवन्धा तिष्ठतिष्ठेतिभासन्तो देवी मन्ये महासुराः आतितेरसनागास्मै असुरैश्ववसुन्धरा आतितेरसनागास्मै असुरैश्ववसुन्धरा अगम्यासा भवत्तत्र यत्राभोत्समहारणः अगम्यासा भवत्तत्र यत्राभोत्समहारणः शोणितौघामः अनद्यस्तद्यस्तत्र प्रसुश्रुवोः शोणिपौघामहानस्तस्यस्तत्र प्रसस्रुवः क्षणे अतन्महासैन्यमसुराणाम् तथाम्शिका हिन्ये क्षयम् जरा वृह्णदारु महातयम् निन्ये क्षयम् जगावृह्णदारु महातयम् तत जिह्मो महानादमुजन्धुरकेसरः तत जिह्मो महानादमुजन्धुरकेसरः शरीरेभ्यो मरारेण मसूनिव विचिन्वति शरीरेभ्यो मरारेण मसूनिव विचिन्वति गणैश्चतै सत्रकृतम् युद्धम् ते व्या गणैश्चतै सत्रकृतम् युद्धम् महासुरैः यथैषां तुपसर्देवा पुष्पवृष्टिमुतो दिवि यथैषां तुपसर्देवा पुष्पवृष्टिमुतो दिवि ओ